पुरुषोत्तमश्रनामस्तोत्रम् स्मृतिर्हेतुर्ब्रह्मभावसायुज्यादिप्रदः शुभ पञ्चमस्कन्धीयनामानि विजयस्थितेलीलाब्धिरज्युतो विजयप्रदः स्वसामर्थ्यप्रदो भक्तकीर्तिहेतुरथोक्षदः प्रियव्रत प्रियस्वामी स्वेच्छावाद विशारदः संज्ञगम्यहं स्वप्रकाश सर्वसङ्गपि वर्जितः इच्छायां च समर्यादन्त्यागस्माद्रोपलम्भनः अचिन्त्यकार्यकर्ता च तर्कागोचरकार्यक्रे शृङ्गाररथमर्यादाम् आग्निद्ररथं भ्राजनम् नाभीष्टपूरकर्म मर्यादादर्शनोत्सुकः सर्वर सर्वोद्बूततमो मदुरषोत्तम स्वेशु स काला साक्षी सति प्रभ मेरुदेवी वर वृतफलमृतभुम भगलक्षण जगत्संदर्पको मेघ रूपी दवेंद्र दर्प जयंतीपतिरतमशेषकिक सतधान्यर्थभूतात्मा सदानन्दोगुणप्रसुः वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः परहंसक्रियागोप्ता योगचर्याप्रदर्शकः चतुर्थाश्रम निर्णीयता सदानन्दशरीरवाण प्रदर्शितान्यधर्मश्च भरतस्वाम्यपारकृ यथावत्कर्मकर्ता च सङ्गानिष्टप्रदर्शकः आवश्यक पुनर्जन्म कर्ममार्ग कर्ममार्गप्रदर्शकः यज्ञरूपमृगः शान्तसहिष्णुसत्पराक्रमः रहुगणगतिज्ञश्च रहुगणविमोचकः भवाटवि तत्त्वभक्तां दहिर्मुखरितैरतः गवामीस्थानवंशकर्ता स्थानभिभेदकृतं पुंसावयवो भूमिर्विशेषभिनिरूपकः जम्बूदीपं पतिर्मेरु नाभिरुपद्मरुहाश्रय नानाविभूतिलीलाढ्यो गङ्गोत्पत्तिं निदानकृ गङ्गामाहात्महेतुश्च गङ्गारूपोत्गूढकृं वैकुण्ठदेहेत्वम्बुजन्मकृ सर्वपावनः शिवस्वामी शिवोपाशूढ़ सकर्षणत्मक स्थानक्षास्यादीपूजि उपास्ना ज्योतिपो गति सूर्यनायण वेद कांतिरुज्वल वेशध्री हंसोऽन्तरिक्षगमनं सर्वप्रसवकारणम् आनन्दकर्तावशतो बधो वाङ्पतिरुज्ज्वलः कालात्मा कालकालश्च कालखेदकृदुत्तमः काल शुशुमारं सर्वमृतिराधिनिर्दैविकरूपधे अनन्तसुखभोगाढ्यो विवरैश्वर्यभाजनम् शङ्कर्षणोदयधिपति सर्वाधारो बृहद्वपुः अनन्तनरकच्छेदि स्मृतिमात्रार्तिनाशनः सर्वानुग्रहकर्ता च मर्यादाभिन्नशास्त्रके षष्ठस्कन्धीयनामानि कालान्तकभयच्छेदि नामसामर्थ्यरूपधि उद्धारा नर्ह गोप्त्रात्मां अजामिल अजामिलमहादुष्टमोचको भुवि मोचकः मोच धर्मभक्ता क्लिष्टभक्ता विष्णुधर्मस्वरूपधे सन्मार्गप्रेरको धरता त्यागहेतुरथोक्षजः वैकुण्ठ पुन पुननेता च दासमृद्धिकारकः दक्षप्रसादकृध्वंस गुह्यस्तुते विभावनः स्वाभिप्रायप्रवक्ता च मुक्तजीव प्रसूतिकृ नारदप्रेरणा प्रेरणात्मा च हर्यस्वब्रह्मभावनः सबलास्वहितो गूढवाक्यार्थज्ञापनयक्षमः गूढार्थज्ञापकः सर्वमोक्षानन्दप्रतिष्ठितः पुष्टिप्ररोहेतुश्च दासैकज्ञातहृद्गतः शान्तिकर्ता सुहितृस्त्रीं पशु सर्वकामधूं पुष्टिवंशप्रणिहिता च विश्वरूपे च देवतां कौचात्मा पालनात्मां वर्मोपञ्चितकारणं विश्वरूपसिरच्छेदे त्वाष्टियज्ञविनाशकः वृत्रस्वामी वृत्रगम्यो मृत्रं वृत्परायिणः मृत्रकीर्तिं नृत्रमोक्षो भगवत्प्राणरक्षकः अश्वमेध हरिर्भोक्तां देवेन्द्रामीव नाशकः संसारमोचकश्चित्र केतुबोधनतत्परः मन्त्रसिद्धे सिद्धिहेतुसुसिद्धे फलदायकः महादेव तिरस्कर्ता भक्तपूर्वार्थनाशकः देवब्राह्मणं विद्वेष वैमुख्यज्ञापकः शिवः आदित्योदैत्यराजश्च मरुत्पतिरचित्य चिन्त्यक्री मरुतां भेदकस्त्राताव्रतात्मां पुं प्रसूतिके सप्तमस्कन्धीयनामादि करमात्मा वासनात्मा च उती लीलापराय समदैत्यसुरः स्वात्मां वैषम्यज्ञानसंशयः देहाद्युपाधिरहितं सर्वज्ञ सर्वहेतुवी ब्रह्मवाक्स्थापनं परः स्वजन्मावधि कार्यक्रीन् सदसद्वासनाशेतु सत्यो भक्तमोचकः हिरण्यकसिपुद्वेषे प्रविष्टात्मातिभीषणः शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणं दैत्यसिद्धान्तसद्वक्ता तपसार उदारधी दैत्यहेतुप्रकटनो भक्तचिह्नप्रकाशकः सद्वेष हेतुसद्वेषवासनात्मा निरन्तरः नैष्ठुर्यसीमां प्रह्लादवत्सलसङ्गदोषः महानुभाव साकारसर्वाकारं प्रमाणभूस्तम्भ प्रसूते निहरि नृसिंहो भीमविक्रम विकटास्योल्लज्जिह्वो नखशस्त्रो जपोत्कटः रण्यकथपुच्छेदीं क्रूरदैत्यविनाशकः सिंहासनस्थक्रोधात्मा लक्ष्मीभयविवर्धनः ब्रह्माद्यत्यन्तं भयभूरपूर्वाचिन्त्यरूपधि भक्त्यैकं कसान्त हृदयो भक्तस्तुत्यस्तुतिप्रियः भक्ताङ्गं लेहनोद्धूतक्रोधं पुञ्जप्रशान्ती स्मृतिमात्रं भयत्रातां बृहद्बुद्धिप्रदायकः गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः धर्मात्मा सर्वकर्मात्मा विशेषात्माश्रयप्रभु संसारमग्नसोद्धरतां सन्मार्गां खिल तत्त्ववाक् आचारात्मा सदाचारो मन्वन्तर्विभावनः अष्टमस्कन्धीयनामाढिस्मृत्याशेषाशुभरो गजेन्द्रस्मृतिकारणं जातिस्मरणहेत्वेकपूजाभक्ते स्वरूपदः यज्ञो भयान्मनुद्रातां विभुर्ब्रह्मा वृताश्रयः सत्यसेनो दुष्टघाति हरिर्गज विमोचकः वैकुण्ठो लोककर्ता अजितो मृतकारणं उरुक्रमो भूमिहरता सार्वभौमो बलिप्रियः विभु सर्वस्यैकात्मा विश्वक्षेना शिवप्रियः धर्मसेतुर्लोकधृतिः सुधर्मान्तरपालकः उपहरता उपहृता योगपतिर्ब्रहानो क्रियापति चतर्दश्रमाणात्मा धर्मो मंडिबोधक लक्ष्मी भोगेकलो दीवंत्रदायक दैत्यव्यामोहक साक्षागुरस्कंधस लीलामंदरधारी चैत्यवाचुकूजिता समुद्रोन्मथनायत्त विघ्नकर्ता स्ववाग आदिकुर्वहं तवित्रात्मा मन्दाराघर्षणोत्सुकः श्वासैजधब्धी वावीचीं कल्पान्तावधिकार्यके चतुर्दशमहारत्नो लक्ष्मी सौभाग्यवर्धनः धन्वन्तरे सुधाहस्तो यज्ञभोक्तार्चिनाशनः आयुर्वेदप्रणेता च देवदैत्याखिलार्चितः बुद्धिव्या मोहको देवकार्यसाधनतत्परः श्रीरूपोमाया वक्ता दैत्यां तरणप्रियः पायितामृतदेवांशो युद्धहेतुस्मृतिप्रदः मालिसुमालिं बदं कृन् माल्यवत्प्राणहारणकः कालनेभीसिरच्छेदि दैत्ययज्ञविनाशकः इन्द्रसामर्थ्यदाता च दैत्यशेष स्थितिप्रियः शिवव्यामोहकोमायी भृगुमन्त्र बलिजीवनकर्ता च स्वर्गहेतुर्वृतार्चितः आदित्यानन्दकर्ता च संभवः उपेन्द्र इन्द्रावर्यो वामनो ब्रह्मरूपधी ब्रह्मादिसेवितं वपुरयज्ञं पावनतत्परं याञ्चोम्पदेशकर्ता च ज्ञापिता शेषसंस्थितिः सत्यार्थप्रेरकः सर्वहर्ता गर्वविनाशकः त्रिवक्रमं त्रिलोकात्मा विश्वमरुति पृथुस्रवा वासबद्धबलिः सर्वदैत्यपक्षोपमर्दकः सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः कर्मसम्पूर्तिकर्ता च तर्गसंस्थापितामरः ज्ञात त्रिविधर्मात्मा महावीनोऽब्धिसंशयः सत्यव्रत प्रियो गोप्तां मत्स्यमृति धृतश्रुतिः सिङ्गबद्धं धृतक्षोणीः सर्वार्थज्ञापको गुरुः नमस्कन्धीयनामारि ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः सोमवंशोद्भवकरो मनुपुत्र गतिप्रदः अम्बरीशप्रियः साधुरं दुर्वासागर्वनाशकः ब्रह्मसापोपसंहरता भक्तकीर्तिविवर्धनः इक्ष्वाकुवंशजनकः सगराद्यखिलार्थदः भगीरथमहायत्नो गङ्गाधौताङ्ग्रिपङ्कजः ब्रह्मस्वामी शिवस्वामी सगरात्मन च मुक्तिदः खड्वाङ्गमोक्षहेतुश्च रघुवंशविवर्धनः रघुनाथो रामचन्द्रो रामभद्रो रघुप्रियः अनन्तकेते पुण्यात्मा पुण्यश्लोकैकभास्करः कोशलेन्द्रः प्रमाणात्मा सेव्यो दशरथात्मजः लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः विश्वामित्रप्रियहुतां तस्ताटकावधपोक्षदः वायव्याश्राब्धेन क्षिब्धमारीचश्च सुबाहुआ ृषध्वज धनुर्भङ्ग प्राप्तसीतामहोत्सवः सीतापतिर्भगवतिर्गर्भपर्वतनाशकः सीता अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवान् कैकेयी वाक्यकर्ता च पितृवाक्परिपालकः वैराग्यबोधकोऽन्य सात्त्विकस्थानबोधकः अहल्या दुःखहारी च गुहस्वामी च लक्ष्मणः चित्रकूटं प्रियस्थानो दण्डकारण्यपावनः सर्वङ्गस्नादीं पूजितोङ्गं स्थ्यं भाग्यभुः ऋषिसम्प्रार्थकृतिं विराधवधपण्डितः छिन्नसर्पणखानाश करदूषणघातकः एकबाणहतानेकसहस्रबलराक्षतः मारीचघाते नियतां सीतासम्बन्धशोभनः सीताभियोगं जग्रश्च जटायुवधं मोक्षदः सबरिपूजितो भक्तः हनुमन् प्रमुखावृतः दुन्दुभ्यस्थीं प्रहरणः सप्ततालविभेदनः सुग्रीवराजतो बालिघातिसागरशोषणः हेतुबन्धरकर्ता च विभीषणहितप्रदः रावणादिशुरक्षेदीं द्राक्षसाघोघनाशकः सीताभयप्रदाता च पुष्पकां गमनोत्सुकः अयोध्यापतिरत्यन्त सर्वलोकसुखप्रदः मथुरा पुरनिर्माता सुकृतज्ञस्वरूपदः जनकज्ञानगम्यश्च ऐलां तप्रकटसृतिः हेयां तकरो रामो दुष्टछत्रविनाशकः सोमवंस हितैकात्मा यदुवंस विभरधनः